नारदश्च जगौतत्र तत्र तुम्बुरुश्च महाद्युतिः विश्वावसुश्चित्रसेनस्तथान्ये गीतकोविदाः रमयन्ति स्म तान् सर्वान् इतिहासपुराणानि आख्यानानि च सर्वशः ऊचूर्वै शब्दशास्त्रज्ञा नित्यम् कर्मान्तरेष्वथ भेर्यश्च मुरजाश्चैव मड्डुकागोमुखाश्च ये शृङ्गवंशाम्बुजाश्चैव स्म सहस्रशः लोकेऽस्मिन् सर्वविप्राश्च वैश्या शूद्राश्च सर्वशः सर्वे म्लेच्छा सर्ववर्णा साधिमध्यान्तजास्तथा नानादेशसमुद्भूतैर्नानाजातिभिरागतैः पर्याप्तैव लोकोऽयम् युधिष्ठिरनिवेशने भीष्मद्रोणादयः सर्वे पुरव स सुयोधनाः वृष्णयश्च समग्राश्च पञ्चालाश्चपि सर्वशः यथार्हम् सर्वकर्माणि चक्रुर्दासा इव क्रतौ एवम् प्रवृत्तो यज्ञः सधर्मराजस्य धीमतः शुशुभे महाबाहो सोमस्येव क्रतुर्यथा वस्त्राणि कम्बलांश्चैव प्रावारांश्चैव सर्वदा निष्कहेमज भाण्डानि भूषणानि च सर्वशः प्रददौ तत्र सततम् धर्मराजो युधिष्ठिरः यानि तत्र महीपेभ्यो लब्धम् वा धनमुत्तमम् तानि रत्नानि सर्वाणि विप्राणां प्रददौ तदा कोटिसहस्रं प्रददौ ब्राह्मणानां महात्मनां न करिष्यति तं लोके कश्चिदन्यो महीपतिः याजकाः सर्वकामैश्च सततं ततरुपूर्धनैः व्यासं धौम्यम् प्रयतो नारदम् च महामतिम्